हरि ओम् श्रीसीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याकाण्डे पञ्चचत्वारिंशर्ग भरते महाराजे दशरथे च प्रणम्य रक्षितुम् श्री रामस्य श्रीरामस्य दुर्वासिनपतिपुरे निवर्तनाय प्रार्थना पौराणाम् वृद्धब्रह्मणानाम् रामपतिपुरे निवर्तितुम् आग्रहस्थै सह स श्रीरामस्य तमसा तदे गमनम् अनुरक्ता महात्मानम् रामं तस्य पराक्रमम् अनुजग्मु प्रयन्तम् वनवासायमानवः मानवः निवर्तितेऽतीव बलात् राजनी नैवते नैव ते सन्निवर्तन्ते रामस्यानुगतार्थम् अयोध्यानिलयानां हि पुरुषाणाम् ह यश बभूव गुणसम्पन्न पूर्णचन्द्रः इव प्रियः स्वयाच्यमान एकाकुत्स्थ ताभिः प्रकृतिभिस्तरः कुर्वाणः पितरम् च सत्यम् वनम् एवान्वपद्यत अवेक्षमाण स स्नेहम् चक्षुषा प्रपिबन्निव उवाच राम सा प्रजा सा प्रजा इव या प्रीतिर्बहुमानश्च मय निवासिनां मत्प्रियासं विशेषेण भरते सा विधीयताम् स हि कल्याणचारित्र कैकेय्यानन्दवर्धन करिष्यति यतावद्व प्रियाणि च हितानि च ज्ञानवृद्धो वयो मृदुर्वीर्य गुणान्वितः अरुपः स वो भर्ता भविष्यति भयापः स हि राजय गुणैर्युक्तौ युवराज समीक्षितः अपि चापि मया शिष्टैः कार्यङ्गो भर्तृशासनम् सन्तप्ये तद्यथा चासो वनवासं गते मयि महाराज तथा कार्यो मम प्रिय चिकित्सया यथा यथा दाशरति धर्मम् एवाश्रितो भवेत् तथा तथा प्रकृतयो रामम् पतिमकामयन् बाष्पेण पीतं दीनम् राम सौमित्रिणा सह चकर्चैव गुणनिर्बद्धम् जनम् पुरनिवासिनम् ते द्विजा श्रीवधं ज्ञानेन वयसौजसा व्यप्रकम् परशिरसु दूरादुचूदम् वचे वहन्तो जवनारमं, भोगो जात्य तुरङ्गमः निवर्तध्वम् न गन्तव्यम् पिता भवत भर्तरि कर्णवन्ती हि भूतानि विशेषेण तुरङ्गमः यूयम् तस्मान् निवर्तध्वम् याचना प्रतिवेदिता धर्म त विशुदत्मा वीर शुभय दृढ़ व्रत है उपवाह्य स्व भर नापवाह्य पुराधन एवं मात प्रलांसा वृद्धा प्रलपत धीजा अवेक्ष सहसारा प्रसाद वै तार्भ्यामे जगामाथ सीता स लक्ष्मणः सन्निकृष्ट पदन्यासो रामो वनपरायणः द्विजातिन् हि पदाति तान् रामचारित्रवत्सलः न शशाक गृणाचक्षु परिमोक्तुं रथेन दृष्ट्वा रामं सम्भ्रान्त मानस ऊचु रामम् वाक्यम् इदं द्विजा ब्रह्मण्यं कृष्णमेतत् त्वाम् ब्रह्मण्यम् अनुगच्छति द्विजस्कन्धाधिरूढास्ताम् अग्नयोऽपि अनुयास्त्वमि वाजपेयी सुत्थानि छत्राण्येतानि पश्यनः पृष्ठतो नु प्रयातानि मेघानि वा रश्मि सन्तापि सत्यचेते एभियां करिष्याम स्वत्रै वाजपेयकै या हिनस्ततम् बुद्धि वेदमन्त्रानुसारिणि सत्कृते सा कृतावत् हृदयेषु अवतिष्ठन्ते वेदायेन परम् धनम् वध्यन्तपि चारित्र रक्षितः पुन निश्चयकार्य तद्गतौ सुकृता मतिः त्वयि धर्म व्यपेक्षयतु किं च धर्म पथे स्थितं याचितो नो निवर्तस्व हंस शुक्ल शिरोरुहे शिरोभि निभृताचार मयि पतनपांसुलै बहुधा विसता यज्ञा य इहतः तेषाम् समाप्ति आयत्तः निवर्तने भक्तिम् बन्तिः भूतानि जङ्गमा जङ्गमानि च याचमानेषु तेषु त्वम् भक्तिम् भक्तेषु दर्शय अनुगन्तम् अशक्त्वासाम् मूलै उद्धत वेगिनह। उन्नता वायुवेगेन विक्रोशन्ति पादपा निश्चिष्टाहार सञ्चार वृक्षैकर्था न निश्चितः पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् एवम् विक्रोशताम् तेषाम् विजातीनाम् निवर्तने ददृशे तमसा तत्र वारयन्ती राघवम् ततस्तु मन्त्रोऽपि परिवर्त्य शीघ्रम् पितोदकान्तोय परिप्लुताङ्गान् सचार्य द्वैतमसा विदूरे विचार्ये श्रीमद रामायणे वाल्मीकि अधिकारी अयोध्याकाण्डे पञ्च चत्वारिंश सर्ग श्री